अथ ईशावास्य उपनिषदि घनपाठः प्रारभ्यते ओशावास्य भाष्यमीशेषा भाष्यमिदमिदम् भाष्यमीशेषा भाष्यमिदम् बाह्यमिदमिदम् वास्त्यम् बाह्यमिदाम् सर्वमिदम् वाश्चास्यमिदाम् सर्वम् म् सर्वज्ञ सर्वमिदमिताम् सर्वञ यद्यत् सर्वमिदमिदाम् सर्वञयते सर्व यद्यत् सर्वज्ञ सर्वै यत्किम् किम् यत्सर्वज्ञ सर्वै यत्किम् यत्किम् कियज्जत्किञ्च झटियज्जत्किञ्च किं च झटिम् किञ्च जगत्याम् जगत्याम् षटिम् किञ्च जगत्याम् जगत्याम् च झ जगत्याम् जगज्जगज्जगत्याम् च झ जगत्याम् जगत् जगदस्याम् जगज्जगज्जगत्याम् जगत्याम् जगति जगरिति जगत् तेन त्यक्तेन त्यक्तेन तेन तेन त्यक्तेन भुञ्जीथा भुञ्जीथा त्यक्तेन तेन तेन त्यक्तेन भुञ्जीथाः त्यक्तेन भुञ्जीथा भुञ्जीतास्त्यक्तेन त्यक्तेन भुञ्जीथा मा भुञ्जुञ्जीता त्यक्तेन त्यक्तेन भुञ्जीथा मा भुञ्जीथा मा भुञ्जुञ्जीथा भुञ्जीथा मातु भो विभो मा भुञ्जीथा भुञ्जीथा माविधः मारुभो विभो मा मा मा मा मा मा मा मा मा मा माविधर्कस्य कस्य विभो मा माविधर्कस्य करस्य कस्यर्भोगु धः कस्य स्वित्वित्कस्यर्भोगुधर्कस्य स्वि कस्य स्वित्कस्य कस्य स्विद्धनम् धनव्यस्वित्कस्य कस्य स्विद्धनम् सिद्धनन्धनव्यस्वित्सिद्धनम् धनमिधनम् कुर्वन्नेवैव कुर्वन् कुर्वन्नेवेहेहैव कुर्वन् कुर्वन्ेवेहा े हे है वैरेह कन्माणि कन्मा आणि है वै रेह कन्माणि इह कन्मानि कन्मा आनि हेह कन्मा आनि दिजिभिषेत् दिजीभिषेत् कन्मानि हेह कन्मानि दिजिभिषेत् कर्म आणिदिति विषेद्यिति विषेत्कर्माणि कर्म आणि विषेत् शतज्ञ सतञ्जि विषेत्कर्म आणि कर्म आणिभिः विषेत्सतम् इति विषेत् शतज्ञ सतञ्जिति विषेद्यिति विषेत्सताम् समाः समाः सतञ्जिति विषेद्यिः विषेच्छताम् समाः सताम् समाः समाः शतज्ञ सताम् समाः समा इति समाः एवन्तयित्तय एवमेवम् तयिन न त्वय्येवमेवन्तयिना तैन न त्वयित्तयिनान्यथान्यथा नत्तयित्तैनान्यथा नान्यथान्यथा नान्यथेत इक्तोऽन्यथा नान्यथेतः अन्यथेतहितोऽन्यथान्यथेतो अस्त्यस्तीतोऽन्यथान्यथेतोस्ति इतो अस्त्यस्तीत इतो अस्ति न नास्त्य इत इतोस्ति न अस्ति ननास्त्यस्ति न कर्म कन्मनास्त्यस्ति न कर्म न कर्म कर्म न न कर्म लिप्यते लिप्यते कन्म न कर्म लिप्यते लिप्यते कर्म कन्म लिप्यते नरे नरे लिप्यते कर्म कन्म लिप्यते नरे लिप्यते नाम नामासुर्या ते नाम ते नामते नामनामते लोका लोकास्तेनामनामते लोकाः ते लोका लोकास्ते लोका अन्धेनान्धेन लोकास्ते लोका अन्धेन लोका अन्धेनान्धेन लोका लोका अन्धेन तमसा तमसान्धेन लोका लोका अन्धेन तमसा अन्धे न तमसा तमसान्धे नान्धे नतमसावृता आवृतास्तमसान्धेनान्धे नतमसावृताः तमसावृता आवृतास्तमसा तमसावृताः आवृता इत्यावृताः आग्रस्ते चेताग्रस्ताग्रस्तेत्रेत्यप्रेत्य चेताग्रस्ताग्रस्तेत्रे च ेत्यते ते प्रेत्याभ्यभिप्रेत्यते प्रेत्याभि प्रेत्याभ्यभिप्रेत्य प्रेत्याभिगच्छन्ति गच्छन्त्यभिप्रेत्य प्रेत्याभिगच्छन्ति प्रेत्येतिप्रा अभिगच्छन्ति गच्छन्त्यभ्यभिगच्छन्ति ये ये गच्छन्त्यभ्यभिगच्छन्ति ये गच्छन्ति ये ये गच्छन्ति दि, गच्छन्ति ये के के ये गच्छन्ति दि, गच्छन्ति ये के एके ये ये के चषके ये ये के च के चठके के चा आत्महन आत्महनश्च के के चा आत्महनः चात्महन आत्महनश्च चात्महनो जना जनाः आत्मनश्च चात्महनो जनाः आत्मह नो जना जना आत्महन आत्महनो जना आह आत्मह नयुत्यात्म अनाः जनादिति जना आह अने ए जगे कमे कमने ए जगने ए कमने ए जगने ए जगे एकं मनसोमन सजे कमेकं मनसोजवी इ योजवी इ यो मन सजे कमेकं मनसोजवी मनसो मनसोजवी इ यो नन जवी इ यो नैनेनैनद्देवा देवाय एनन्ननैनद्देवाः एनद्देवा देवाय एनदेनद्देवाः आप्नुवन्नाप्नुवन् देवा एनदेनदेवा आप्नुवन् देवाः अप्नुवन्नाप्नुवन् देवा देवाप्नुवन्तोऽर्वम् पूर्वमाप्नुवन् देवा देवाः आप्नुवन्तूर्वम् आप्नुभन्पोर्वम् पूर्वमाप्नुवन्नाप्नुभन्पूर्वमर्षदरिषत्पूर्वमाप्नुवन्नाप्नुभन्तोर्वमर्षति पूर्वमर्षदरिषत्पूर्वम् पूर्वमर्षति अरिषदित्यरिषति तद्धावतो धावतस्तत्तद्धावतोऽन्यान्याम् धावतस्तत्तद्धावतोऽन्यान् धावतोऽन्यानन्यान् धावतो धावतोऽन्यानस्यन्यान् धावतो धावतोऽन्यानती अन्यानप्रत्यञानस्येयस्त्येत्यस्येति अत्येत्येत्यस्येतिष्ठस्येत्येतिष्ठति येऽतिष्ठत्तिष्ठ चेऽधितिष्ठत्तस्मि गस्तस्मित्तिष्ठते चेदितिष्ठत्तस्मिन् तिष्ठत्तस्मि गस्तस्मि गृत्तिष्ठत्तिष्ठत्तस्मिन्न गोपस्तस्मि गत्तिष्ठत्तिष्ठत्तस्मिन्नवः तस्मिन् न गोपस्तस्मि गस्तस्मिन्नपो माधरिष्वामाधरिष्वापस्तस्मि ग्रस्तस्मिन्नपो माधरिष्वाहा अपो मा तरिष्वा आ मातरिष्वा पोपो मातरिष्वाहा आ दधाति दधाति मातरिष्वा कोपो मातरिष्वाहा आ दधाति मातरिष्वा आ दधाति दधाति मातरिष्वा आ मातरिष्वा आ दधाति दधाति की दधाति अदे एदत्तेजति दत्तदे एतदिनञ्जति दत्तदे एजदिन नैजत्येजति मेजत्येजति नैजत्येजति मेजति एजस्यैजति न मेजति दूरे भूरजे एजदिनमेजति दूरे येजति दूरे दूरजे एजस्यैति दूरवन्तिके हन्ति कपु दूरजे एजस्येजति दूरगवन्तिके दूरगुवन्तिके हन्ति कपु दूरे दूरवन्तिके त्यो अन्तिक इत्यन्तिके अन्तरस्यान्तरन्तरस्य सर्वस्य सर्वस्यान्तरन्तरस्य सर्वस्य अस्य सर्वस्य सर्वस्यास्य सर्वस्यो सर्वस्य सर्वस्य सर्वस्याश्चास्य सर्वस्यो सर्वस्यो सर्वस्य सर्वस्योर्वस्य सर्वस्यो सर्वस्यास्य सर्वस्यो सर्वस्य सर्वस्यो सर्वस्यास्य सर्वस्यास्य सर्वस्य सर्वस्यास्य सर्वस्य सर्वस्यास्य बाह्यतः अस्य वाक्यतो वाह्यतोऽस्यास्य बाह्यतः बाह्यत इति वाक्यतः यस्तु सुयोस्तु सर्वाणि सर्वा आणि प्रियो यस्तु सर्वाणि तु सर्वा आणि सर्वा तु सर्वा भूतानि भूतानि सर्वा आणि तु सर्वाणि भूतानि सर्वाणि भूतानि भूतानि सर्वाणि सर्वाणि भूतान्यात्मनात्मन् भूतानि सर्वाः सर्वाः भूतान्यात्मन् भूतान्यात्मन्नात्मन् भूतानि भूतान्यात्मन्नेवैवात्मन् भूतानि भूतान्यात्मन्नेव एवा आत्मन्नेवैवात्मन्नात्मन्नवानुपश्यत्यनुपश्यत्येवात्मन् आत्मन्नेवानुपश्यति एवानुपश्यत्यनुपश्यत्येवैवानुपश्यति अनुपश्यतीत्यनुपश्यति सर्वभूतेषु च सर्वभूतेषु सर्वभूतेषु चात्मानमात्मानम् च सर्वभूतेषु सर्वभूतेषु चात्मानम् सर्वभूतेष्विति सर्वभूतेषु चात्मानमात्मानम् चात्मानम् ततस्तत आत्मानम् चात्मानन्ततः आत्मानम् ततस्तत आत्मानमात्मानन्ततो न तत आत्मानमात्मानन्ततो न ततो न न ततस्ततो न विनततस्ततो नवी न विविनन विजुगुप्सते जिगुप्सते विनन विजुगुप्सते विजुगुप्सते जिगुप्सते रिविजुगुप्सते जिगुप्सत इति जिगुप्सते यस्मिन् सर्वाः सर्वाणि यस्मिन् यस्मिन् सर्वाः भूतानि भूतानि सर्वाः यस्मिन् यस्मिन् सर्वाणि भूतानि सर्वाणि भूतानि भूतानि सर्वाणि सर्वाणि भूतान्यात्मात्मा भूतानि सर्वाणि सर्वाणि भूतान्यात्मा भूतान्यात्मात्मा भूतानि भूतान्यात्मैव आत्मा भूतानि भूतान्यात्मैवा आत्मैव आत्मात्मैवा भूतभूदेवात्मात्मैवा भूत् भूतभू देवैवा भूवद्विजानतो विजानतो भूवो देवैवा भूवद्विजानतः अभूवद्विजानतो विजानतो भूतभूवद्विजानतः विजानत इति विजानतः तत्र कः कस्तत्र तत्र को मोहो मोहः कस्तत्र तत्र को कोमो होमो हः कः क्रोमो हः कः क्रोमो हः कः क्रोमो हक्कः कः क्रोमो होमो हः कश्चोकश्चोकः क्रोमो होमो हः क शोकः कश्चोकशोकः कः कशोकये कत्वमे कत्वग्निशोकः ये शोकये तत्तमेकत्वद्वेषोकः शोकये तत्त्वमनुपश्यतोऽनुपश्यतये गत्वद्वेषोकः शोकये क्वमनुपश्यतः एकत्वमनुपश्यतोऽनुपश्यतये तत्तमेकत्वमनुपश्यतः एकत्वमित्येक त्वम् अनुपश्यत इत्यनुपश्यतः तपहिपरिषसपर्यगादघात्तसपर्यगा पर्यगादगात् परिपर्यगात् शुक्रज्ञे शुक्रमगात् परिपर्यगात् शुक्रम् शुक्रज्ञे शुक्रमगादगात् शुक्रमकायमकायज्ञे शुक्रमगादगात् शुक्रमकायम् शुक्रमकायमकायज्ञे शुक्रज्ञे शुक्रमकायमौ रणमौ रणमकायज्ञे शुक्रज्ञे शुक्रमकायमौ रणम् कायमौ रणमौ प्रणमकायम कायमौ रणमस्ना विरमस्ना विरमौ रणमकायम कायमौ रणमस्ना विरम् औणमस्ना विरमस्ना विरमौ रणमौ रणमस्ना विराम् शुद्धज्ञे शुद्धमस्ना विरमौ रणमौ रणमस्ना विराम् शुद्धम् अस्मा विराम शुद्धज्ञे शुद्धमस्मा विरमस्मा विराम् शुद्धमपा आपविद्धमपा आपविद्धग्ने शुद्धमस्मा विरमस्मा विराम् शुद्धमपा आपविद्धम् शुद्धमपा आपविद्धमपा आपविद्धग्ने शुद्धज्ञे शुद्धमपा आपविद्धम् अपा आपविद्धमित्यप आप कलिन् मनीषी मनीषी कविः कलिन् मनीषी परिभो परिभोन् मनीषी कविः कलिन् मनीषी परिभूः मनीषी परिभो परिभोन्मनीषी मनीषी परिभो स्वयम्भो स्वयम्भो परिभोन् मनीषी मनीषी परिभो स्वयम्भूः परिभो स्वयम्भो स्वयम्भोः परिभो परिभो स्वयम्भोण्या आतच्छतो य आछातच्छत स्वयम्भोः परिभोः परिभो स्वयम् भोवण्या आातच्छतः परिभूरिति परिभूः स्वयम्भूर्या आथातोया आचादक्षत स्वयम्भोः स्वयम्भूर्या आरक्षतोऽर्था रक्षत स्वयम्भोः स्वयम्भूर्या आदक्षतोऽर्था स्वयम् भूरिति स्वयम् भूः याथा तथतोऽर्थानर्थान् याथा तच्छतो या आथा तक्षतोऽर्थान्विव्यर्थान् याथा तच्छतो या आचातक्षतोऽर्थान्वि याथा व्यदधारदधाद्विव्यदधाच्छाश्वतीभ्यः शाश्वतीभ्यो ओदधा दिव्यदधाच्छाश्वतीभ्यः अदधा शाश्वतीभ्यः शाश्वतीभ्यो ओदधारदधात् शाश्वतीभ्यः समाभ्यस्समाभ्यः शाश्वतीभ्यो ओदधारदधाच्छाश्वतीभ्यः समाभ्यः शाश्वतेभ्यः समाभ्यः समाभ्यः शाश्वतेभ्यः शाश्वतीभ्यः समाभ्यः समाभ्यैति समाभ्यः अन्धन्तमस्तमोऽन्धमन्धन्तः प्रप्रथमोऽन्धमन्धन्तमप्रा तमः प्रप्रदमस्तमः प्रविशन्ति विशन्ति प्रथमस्तमः प्रविशन्ति प्रविशन्ति विशन्ति प्रप्रविशन्ति ये ये विशन्ति प्रप्रविशन्ति ये विशन्ति ये ये विशन्ति विशन्ति ये विद्या मिद्याम् ये विशन्ति विशन्ति ये विद्याम् ये विद्याम विद्याम् ये ये विद्यामुपासक उपासते विद्याम् ये ये विद्यानुपासते अविद्यामुपासक उपासते विद्याम् विद्यानुपासते इत्युप आसते ततो भूजयिब भुजयि भतस्ततो भोजयिभते ते भूजयि भतस्ततो भोजलिभते भोजलिभते ते भोजलिब भोजलिभते तमस्तमस्ते भोजलिभुजनि भते तमः भोजिवेति भुजः इव चेतमस्तमस्ते चेतमोयेतमस्ते चेतमोये मोयेतमस्तमो यौ विद्याया विद्याया आभूये समस्तमो यौ विद्याया अम् विद्याया आभुये यौ विद्याया अग्निरतारता विद्याया आभूये विद्याया अग्निरताः ऊमयत्यो विद्याया अग्निरतारता विद्यायाम् विद्याया अग्निरताः तता इति हृताः अन्यदेवैवान्यदन्यदेवाहुराहुरेवान्यदन्यदेवाहुः एवाहुराहुरेवै बाहुर्विद्ययाः विद्ययाहुरेवै बाहुर्विद्ययाः आहुर्विद्ययाः विद्ययाहु राहुर्विद्ययान्यदन्य विद्ययाहुराहुर्विद्ययान्यते विद्ययान्यदन्यद्विद्ययाः विद्ययान्यदाहुराहुरन्यद्विद्ययाः विद्ययान्यदाहुः अन्यदाहुराहुरन्यदन्यदाुरविद्यया विद्ययाहुरन्यदन्यदाहुरविद्यया इति सुश्रुम शुश्रुमेतीति सुश्रुमधिरा आनाम् धीरा आनाग् शुश्रुमेति सुश्रुमधिरा आनाम् शुश्रुमधिरा आनाम् धीरा आनाज्ञश्रुम शुश्रुमधिरा आनाये ये धीरा आनाज्ञ शुश्रुम शुश्रुमधीरा आनाये धीराः नाये ये धीराणाम् धीरा नायेनो नो ये धीराणाम् धीरा नायेन येनो नो ये येनस्तत्तन्नो ये ये नस्तते नस्तत्तन्नो ओनस्तद्विचक्षिरे विच चक्षिरे तन्नो ओनस्तद्विचक्षिरे तद्विचक्षिरे वि च चक्षिरे तत्तद्विचक्षिरे विचचक्षिर इति वि चक्षिरे विद्याम् च च विद्याम् विद्याम् चाविद्यामविद्याम् च विद्याम् विद्याम् चाविद्याम् चाविद्यामविद्याम् चाविद्याम् चाविद्याम् चाविद्याम् च अविद्याम् चामिद्यामविद्याञ्चयो यश्चामिद्याममिद्याम् च यः चयो यश्च च यस्तद्यश्च च यस्तरे यस्तत्तद्यो यस्तद्वेदवेद तद्यो यस्तद्वेद तद्वेदवेद तत्तद्वेदोभयमुभयम् वेद तत्तद्वेदोभयम् ोभयमुभयम् वे दवेदोभयाम्सह सहोभयम् वे दवेदोभयाम्सः उभयाम् सह सहोभयमुभयाम् सः सहेति सः अविद्यया मृत्युम् मृत्युमविद्यया विद्यया मृत्युम् तीयक्त्वा तीयत्वा मृत्युमविद्यया विद्यया मृत्युम् तीयक्त्वा मृत्यन्ते यत्ताधियत्वा भृत्यम् नृत्यन्ते यत्त्वा विद्यया आविद्यया आधीयत्वा भृत्युम् नृत्यन्ते यत्त्वा विद्यया हीयत्वा विद्यया विद्यया आधीयत्वाधियत्वा विद्यया मृतम् मृतम् विद्यया आधीयत्वाधियत्वा विद्यया मृतम् विद्ययामृतमममममममममममृतम् विद्यया विद्ययामृतमशृतेऽश्ृतेऽमृतम् विद्ययाः विद्ययामृतमश्मृते अमृतमस्मृतेश्नुतेमृतमृतमश्मृते अश्नुत इत्यश्मृते अन्धन्तमस्तमोऽन्धमन्धन्तमप्रथमोऽन्धमन्धन्धमप्रा तमप्रथमस्तमप्रविशन्ति विशन्ति प्रथमस्तमप्रविशन्ति प्रविशन्ति विशन्ति प्रप्रविशन्ति ये ये विशन्ति प्रप्रविशन्ति ये विशन्ति ये ये विशन्ति विशन्ति येषम् भोतिमसम्भूति ये विशन्ति विशन्ति येषम् भूतिम् एषम् भोतिमसम्भूति ये येषम्भोति उपासत उपासतेषम् भूति ये येषम्भोति उपासते असं भूतिमुपासत उपासतेऽसं भूतिमसम् भूतिमुपासते असम् भूतिमित्यसम् भोजिम् उपासत इत्युपासते अथो भोजलिव भोजलिभत तस्ततो भोजलिभते ते भूजलिभत तस्ततो भोजलिभते भोजलिभते ते भूजलिभ भूजलिभते तमस्तमत्ते भूजलिव भूजलिभते तमः भूय जिवेति भूयः इव एतमस्तमस्तेतमोये चेतमस्ते तमोयेमोयेतमस्तमोयपुसम्भूत्याग्नेसम्भोत्यामुयेतमस्तमोयपुसम्भूत्या यगुसम्भूवत्याग्नेसम्भोत्यामुयेजुसम्भोवत्याग्नेताः सम्भोवत्यामुयेजुसम्भोत्याग्ने दताः सम्भोत्याग्ररता रताः सम्भोत्याग्रसम्भोद्याग्ररताः सम्भोत्यामिति सम् भवत्याम् रता इति रताः अन्यदेवैवान्यदन्यदेवाहुराहुरेवान्यदन्यदेवाहुः हुराहुरेवैवाहुस्सम् भवात्सम् भवादाहुरेवैवाहुस्सम् भवात् आहुस्तम् भवात्सम् भवादाहुराहुस्तम् भवादन्यदन्यत्सम् भवादाहुराहुस्सम् भवादन्यत् भवादन्यदन्यत्सम् भवात्सम् भवादन्यदाहुराहुरन्यत्सम् भवात्सम् भवादन्यदाहुः सम्भवादिते सन् भवात् अन्यदा आहुराहुरन्यदन्यदा आधुरसम् भवाद सन् भवादाहुरन्यदन्यदा आहुरसन् भवापुरसम्भवादसम् भवादाहुराहुरसञ्जभवान् असंभवादित्यसम् भवात् इति शुश्रुमशुश्रुमेति इति सुश्रुमधीरा नाम् धीरा नाग्ने शुश्रुमेति इति सुश्रुमधीरा सुश्रुमधीरा नाम् धीरानाग्ने सुश्रुमशुश्रुमधीरा नाये ये धीरानाग्ने सुश्रम सुश्रुमधीराय धीरा नाये ये धीरा नाम् धीरा नायेनो भो ये धीरा ीराणायेन येनो ये येनस्तत् नस्तत्तन्नो नस्तद्विचचक्षिरे विटचक्षिरे तन्नो नस्तद्विचक्षिरे तद्विचक्षिरे विटचक्षिरे तत्तद्विटचक्षिरे विटचक्षिर इति चचक्षिरे सम्भोगोदिम् च सम्भोति ज्ञे सम्भोदिम् च विनाशम् विनाशम् च सम्भोति ज्ञेसम्भोदिम् च विनाशम् सम्भोतिमिति सम् भोगोतिम् च विनाशम् विनाशम् च विनाशम् च विनाशम् च विनाशम् च विनाशम् च विनाशम् विनाशम् चयोजश्च विनाशमिति विनासम् चयोयश्च चयस्तद्यश्च चयस्तते यस्तत्तद्यो यस्तद्वेदवेद तद्यो यस्तद्वेदा तद्वेदवेद तत्तद्वेदोभयमुभयम् वेद तत्तद्वेदोऽभयम् वेदोभयमुभयम् वेदवेदोभयाम् सहसहोभयम् वेदवेदोभयाम् सः उभयाम् सहसहोभयमुभयाम् सहेति सः विनाशेन मृत्युम् मृत्यम् विनाशेन विनाशेन मृत्युन्तीयत्वातीयत्वा मृत्युम् विनाशेन विनाशेन मृत्युन्तीयत्वा विनाशेनेति विनाशेन मृत्युन्दीयत्वादीयत्वा मृत्युम् मृत्युन्तीयत्वा सम्भोत्यासम्भोत्यातीयत्वा मृत्युम् मृत्युन्तीयत्वा सम्भोत्या ीयत्वासम्भोत्यासम्भोत्याधीयत्वातीयत्वासम्भो चत्यामृतमृतज्ञे सम्भोत्याधीयत्वाधीयत्वासम्भोमृतम्भोत्यामृतमृतज्ञे सम्भोत्यासम्भो च्यामृतमस्मृते स्मृते मृतज्ञे सम्भोत्यासम्भोत्यामृतमश्मृते सम्भोत्येति सम्भ्रोत्या अमृतमस्मृतेऽश्मृते अमृतममृतमस्मृते अस्मृत इत्यस्मृते हिरण्मये एन पात्रे एण पात्रे एन हिरण्मये सत्यस्य सत्यस्य पात्रे एन हिरण्मये एन सत्यस्य पात्रेण सत्यस्य सत्यस्य पात्रेण पात्रेण सत्यस्यापि हितमपि सत्यस्य पात्रेण सत्यस्यापि हि कलम् सत्यस्यापि हितमपि हितज्ञे सत्यस्य सत्यस्यापि हितम्मुखम् मुखमपि हितज्ञे सत्यस्य सत्यस्यापि हितम्मुखम् तम्मुखम् मुखमपि हितमपि हितम्मुखम् अभिहितमित्यपि हितम् मुखमिति मुखम् तत्त्वम् त्वम् तत्तत्त्वम् कोषङ्को षड्वस्त्वम् तत्तत्त्वम् को घोषन् त्वम् को ओषङ्को षड्वस्त्वम् त्वम् को ओषन्न पावभोषड्वस्त्वम् त्वम् अपावृणभृन्वापापावृणसत्यधन् माय सत्यधन् मायभृन्वापापावृणसत्यधन् माया आवृणो वृणुसत्यधम् मायसत्यधम् माय वृणवृणुसत्यधम् मायधृष्टये दृष्टये सत्यधन् मायवृणवृणसत्यधन् मायधृष्टये धन् माय दृष्टये दृष्टये सत्यधन् माय सत्यधम् मायदृष्टये सत्यधम् मायेति सत्या धनु माया दृष्टय इति दृष्टये पूषन् मे करिषये करिषे पूषन् पूषन् मे करिषे यमयमै करिषे पूषन् पूषन् मे करिषे यमा एकऋषे यमयमयि करिषये करिषेयमसूर्यसून्ययमयि करिषये करिषे यमसूवद्या एकऋष इत्येक ऋषे यमसूर्यसून्ययमयमसूर्यप्रायापत्यप्रायापत्यसून्ययमयमसूर्यप्रायावत्या सूर्यप्राजापत्यप्राजापत्यसूर्यसूर्यप्राजापत्यविप्राजापत्यसूर्यसूर्यप्राजापत्यवी प्राजापत्यविप्राजावत्यप्राजापत्यव्योः हविप्राजापत्यप्राजापत्यव्योः प्राजापत्यप्राजा पत्या योः हरिव्यो हरश्मीन् रश्मिनो हरिव्यो हरश्मीन् वो हरश्मीन् रश्मीनोहो हरश्मीन् सर्गे सर्गे रश्मीनोहो हरश्मीन् सन् रश्मीन् सर्गे सर्गे रश्मीन् रश्मीन् समोहो हसगे रश्मीन् रश्मीन् समोहा समोहोहसज्ञे समोहतेजस्ते जगूहसज्ञे समोहते जहा गूहतेजस्ते जगूहो हते जो यद्यत्ते जगूहो हते जोयपि ते जो यद्यत्तेजस्ते जोयत्ते ते यत्तेजस्तेजोयत्ते यत्ते ते यद्यत्ते रूपज्ञे रूपम् ते यद्यत्ते रूपम् ते रूपज्ञे रूपन्ते एते रूपम् कल्याणतमम् कल्याणतमज्ञे रूपन्ते एते रूपम् कल्याः नतमम् रूपम् कल्याणतमज्ञे रूपज्ञे रूपम् कल्याणा नतमन्त तत्कल्याः रूपज्ञे रूपम् कल्याणा नतमन्तते कल्याणतमम् तत्तत्कल्याणतमम् कल्याणतमम् तत्ते तत्कल्याणतमम् कल्याणतमम् तत्ते कल्याणतममिति कल्याणत्तमम् तत्ते तत्तत्ते पश्यामि पश्यामि चे तत्तत्ते पश्यामि ते पश्यामि पश्यामि ते ते पश्यामि पश्यामीति पश्यामि यो सा असौ यो यो सा वसा असा असौ यो यो सा बसौ असा वसा असा असा असा बसौ पुरुषः पुरुषो सा असा असा बसौ पुरुषः असौ पुरुषः पुरुषो सा असौ पुरुषस्त स पुरुषोसा असौ पुरुषस्सः पुरुषस्त स पुरुषः पुरुषस्थोऽहमहज्ञे स पुरुषः पुरुषस्थोऽहम् सोऽहमहद्वेष सोऽहमस्म्यस्म्यहद्वेष सोऽहमस्मि अहमस्म्यस्म्यहमहमस्मि अस्मीत्यस्मि वायुरनिलमनिलम् वायुल् वायुरनिलमृतम् अमृतमनिलम् वायुल् वायुरनिलम् अमृतम् अनिलम् अमृतम् अमृतमनिलमनिलम् अमृतमथा अमृतमनिलमनिलमृतमथा अमृतमथामृतमममृतमथेदमिदमथामृतमममृतमथेदम् अथेदमिदमथाेदम् भस्मान्तम् भस्मान्तमिदमथाेदम् भस्मान्तम् इलम् भस्मान्तम् भस्मान्तमिदमिदम् भस्मान्ताम् शरीरशरीरम् भस्मान्तमिदमिलम् भस्मान्ताम् शरीरम् भस्मान्ताम् शरीरके शरीरम् भस्मान्तम् भस्मान्ताम् शरीरम् भस्मान्तमिति भस्म अन्तम् शरीरमिति शरीरम् ओ क्रतो क्रत ओ क्रतोस्मद स्मर क्रत कतो स्मरस्म हक्रतो क्रतो स्मरकृतं कृतज्ञस्मरक्रतो क्रतो स्मरकृतं क्रधो इति क्रतो स्मरकृतं कृतज्ञस्मरस्मनकृतं यस्मरस्मनकृतज्ञस्मरस्मना कृतं स्मला Svitagya smara smara kritang, gritagya smara krato krato, os <laughs> smara krato, os smara smara krato, os smara smara krato smara. क्रतो स्मर स्मरक्रतो क्रतो स्मरकृतम् कृतज्ञ स्मरक्रतो क्रतो स्मर कृतम् क्रतो इति क्रतो स्मर कृतम् कृतज्ञ स्मरा अग्ने नय राजे अस्मान् विश्वानि देववयुनानि विद्वान् योऽभ्यस्मद्योः राणमेनो भूयिष्ठान्ते न मनम् विधेम ओम् ओन्नमदः कोन्नमिदम् कोऽर्णात्पोन्नमुदत्यते ओन्नस्य कोऽर्नमादाय कोऽर्णमेवावशिष्यते शान्तिशान्तिश्शान्तिः ॐ सस्वतिषच्छ्रु तिषद्भग्ने सोऽहां सस्वतिषत्व सर्वशस्वतिषद्भग्ने सोऽहां सस्वतिषत्वसुः शुचिषद्वसुर्वशुश्रुजिषच्छुजिषद्वसुरम् तरिक्षसदम् तरि क्षद्वशु शुजिषच्छुतिषद्वसुरम् तरिक्षसतेषदिति शुचि सते वसुरम् तरिक्षसदम् तरि क्षसद्वसर्वसुरम् तरिक्षसद्धोता होतान्तरिक्षसद्वसर्वसुरम् तरिक्षसद्धोता अन्तरिक्षसद्भोता होता अन्तरिक्षसदम् परिक्षसद्भोता आवेदिशत्ये एषद्भोता अन्तरिक्षसदम् परिक्षसद्भोता आवेदिशदे अन्तरिक्षसरित्यम् परिक्षा सति होता आवेदिशत्ये एषद्भोता होता आवेदिशदतिथिरतिथिर्वे दिषद्भोता होता आवेदिशदतिथिः भे दिशकलि झिरलि झर्वे दिशद्वे एषलि झट् दुरो न सद्दुरो न सगति धर्मे दिशद्वे एषि झट् दुरोणसति वेदिशदिति वेति सदि अति झट् दुरोण सद्दुरो न सखति झिरलि झट् दुरोणसति दुरोण सदिति सती घृषद्वसद्वरसम् रसम् घृषद्व रसदि दशदि तसध्वरसम् रसम् घृषद्वरसदि दशते द्विषदिति नृसते वरसदि दशदि दशद्वरसद्वरसदि तसद्य ओमसद्य ओमसति तसद्वरसद्वरसदि तसद्य ओमसते वरसदिति वदत्सते तसद्यो अमसद्यो मसदि तसदि तसद्यो अमसगज्जा अब्जाम्यो मसदि तसदि तसद्योः मसदज्जाः तसदित्यो मस गज्जा अब्जाम्यो मसद्यो अमसगज्जा गोजा गोजा अब्जाम्यो मसद्यो मस गज्जा अब्जा गोजा गोजा अब्जा अब्जा गोचार तजा रजा गोजा अब्जा अब्जा गोचार प्रजाः अब्जा इत्यपेब्जाः गोचार तजा तजा गोजा गोचार तजा अद्रिजा अद्रिजात् तजा गोजा गोचार रजा अद्रिजाः गोजा इति गोग्राः ऋतजा अद्रिजा अद्रिजासजा अद्रिजा रतमृतमद्रिजागा रुजा अद्रिजा रतम् ऋतजायित्येता जाः अद्रिजा रतमृतमद्रिजा अद्रिजा रतम् बृहद्बृह बृहते अद्रिजा इत्यद्रिजाः ऋतम् बृहद्बृह बृहते बृहदिति बृहदे पवमानानामेव व्यारोहस्रमे खलु प्रस्तौतासामप्रस्तौति स यत्र प्रस्तुया तदेतानि जपेदसतोमासद्गमय तमसोमाज्योतिर्गमय मृत्योन्मा मृतम् गमयेति स यदासतोमासद्गमयेति मृत्युन्वासत्सदमृतम् मृत्यु ोन्मा मृतङ्गमया मृतं मा कुरुन्दि ये वै तदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो ज्योतिरमृतम् मृत्योन्मा मृतङ्गमया मृतं मा कुरुन्दि ये वै कदाह मृत्योन्मा मृतङ्गमयेति ये तस्मात् तेषु मदम् वृणीतयङ्कामम् कामयेतज्ञेशयेश एवम् विदुद्दातात्मनेवायजमानायवार्यम् कामम् कामय चेतमागाय वि तद्धैतल्लकविजेव नाहैवालोच्यताया आपास्ति येतत्सामवेदा दीर्घायुष्यमस्तु दीर्घ प्तिवस्तु वेलपुरुषप्रसादसिद्धिवस्तु ओम् तत्सति